ोरावृणेमहे गावीयज्ञाय गावीयज्ञपदये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुजेभ्यः ओजिगाग्भेडजम् छन्नास्तद्विपदेः षञ्चलष्पदे ओम् शान्तिः शान्तिः शान्तिः चरित्रिसृग चित्तमाद्यम् वाग्भेदिः आधेदम्बर्हिः तेतोग्निः विज्ञातमग्नेः आत्मजर्होताः मन उपवक्ताः वग प्राणोहरिः सामाद्धर्युः बाचस्पतेधेनामन् विधेमते नाम विधेष्ठमस्माकम् नाम बाचस्पतिस्वामम् पिबतु आस्मासु सम्बन्धा स्वाहा रुद्राग्ने बृहस्पते उपभक्ता पादस्पदे वाचावीर्येण सम्भृतमेना यक्षसे यजमानाय वार्यम् आदुपस्करस्मै पादस्पतिः स्वमम् विपदे यदिन्द्रमिन्द्रिया यस्माः अग्निरहोदा अश्विनाः ध्वर्यो द्रष्टाग्ने मित्र उपभक्ता सोमः सोमस्य पुरोगाः शुक्रः शुक्रस्य पुरोगाः श्रातास्त इन्द्रसोमाः पातापेहवनश्रुतस्वाः सोर्यन्ते चक्षुः पातम् प्राणः याम् पृष्ठम् अन्तरिक्षमात्मा अङ्गैर्यज्ञम् पृथिवेगम् शरीरैः आचस्पदयच्छिद्रया वाचा अच्छिद्रया जिह्वाः वृथगुम्होत्रा स्वाहार्भोगा सद्यः विरद्धर्युः अच्युतपादाग्नेत् अच्युतमनाभोक्ता अनाधिष्यश्च प्रतिधृष्यश्चिकरो अयास्य उद्गाता वाचस्पते हृद्भिधेनामन् विधेमते नाम विधेयकमस्माकम् पाचस्पतिः स्वममपा माले व्यस्त्रम् इमा मनुष्यः नमो दिवे नम पृथिव्ये स्वाहा वाग्भोदा दीक्षावत्नी पातो धर्युः आपोभिकरः मनोहरिः तपसि जुहो मे भोर्भुवः सुवः ब्रह्मस्वयम्भो ब्राह्मण एकहोता स यज्ञः समे ददातु प्रजाम् पशोन् पुष्टञ्जसः यज्ञष्टमे भूयात् अग्रद्विहोता स भर्ता समे ददातु प्रजाम् पशोन् पुष्टञ्जसः भर्ता च मे भूयात् पृथिवीत् गृहोता स प्रतिष्ठा अन्तरिक्षम् चतुर्होता स विष्ठाः समे ददातु प्रजाम् पशोन्मुष्टञ्जसः पिष्ठाश्च मे भूयात् वायः पञ्चहोता स प्राणः समे ददातु प्रजाम् पशोन्वृष्टैजसः प्राणश्च मे भूयात् चन्द्रमा षड्भोता सर्तोऽन्कल्पयाति समे ददातु प्रजाम् पशोन्वृष्टैजसः श्च मे कल्पन्ताम् अन्नकम् सप्तहोता स प्राणस्य प्राणः समे ददातु प्रजाम् वशोऽन्मुष्टैः सः प्राणस्य च मे प्राणो भूयात् यो रष्टहोता सोमादृष्यः समे ददातु प्रजाम् अशोन्मुष्टैः सः अनादृष्यश्च भूयासम् आदित्यो नवहोता स तेजस्वी समे ददातु प्रजाम् रसोन्पुष्ट्यञ्जसः तेजस्वै च भूयासम् प्रजापतिरजशहोता स इदम् सर्वम् समे ददातु प्रजाम् रचोन्पुष्ट्यञ्जसः सर्वञ्च मे भूयात् अग्नियजर्भिः सविता स्वामैः इन्द्रमुत्साहमदेः निद्रावरुणावासिषा अङ्गिरस अभिष्णे अग्निभिः मरुदः सलोयर्जानाभ्याः पापप्राक्षणेभिः घोषदयाबहिः अधिर्वेद्याः सोमोदीक्षयाः कष्टेघेन विष्णवयज्ञेन बसवाद्येन आदित्यादक्षिणाभिः विश्वेदेवावूर्जा घोषाश्वकाकारेण बृहस्पतिपुरोधयाः प्रजापतिरुद्गीधेन अन्तरिक्षम् पवित्रेण वायुःपात्रैः अहग्रश्रद्धया सेनेन्द्रस्य धेनस्पदेः वच्याभूष्णः वाग्वायोः रेक्षासोमस्य पृथिव्यग्नेः वसूनाम् गायत्री रुद्राणाम् दृष्टु आदित्यानाम् जगति कृष्णारुणष्टके अरुणस्य विराट् यज्ञस्य पङ्क्तेः प्रजापते अरुणोजिः मित्रस्य श्रद्धा सविधप्रचोदिः भौर्यस्य मरेचिः चन्द्रमसौरोहिणे विषीणामरुन्धते पर्जन्यस्य विद्युत् तरस्वदिशः तरस्रोवान्तरदिशाः अहस्तरात्रिश्च ऋषश्च वृष्टिश्च ऋषश्चापुरुषिश्च आपस्त्रौषयश्च ऊर्तिसौन्दृता दे च देवानाम् पत्न्यः एवस्यत्वाचविदुःप्रथवे अश्विना बाहुभ्याम् उष्णास्ताभ्याम् प्रतिगृह्णामि राजा त्वाभरुणामे देवदक्षिणे ग्रेय एन्यम् एनामृतमस्याम् पयो दात्रे अयोमह्यमस्त्वप्रतिगृहेत्वे कैयङ्गस्मादात् कामः कामाय कामो दाता कामप्रतिगृहीता कामकुम् समुद्रमाविश कामेण त्वा प्रतिगृह्णामि कामैपत्तेः एषा ते कामदक्षिणा उत्तानस्वाङ्गेरसः प्रतिगृह्णादो सोमाय वासः रुद्राय गाम् वरुणायाश्वम् प्रजापतये पुरुषम् मनवे तर्पम् ओष्णेऽविम् निर्नित्याश्वतनगर्धभो किमोगास्तिनम् अन्धर्वाप्सराभ्यस्रगलङ्करणे विश्वेभ्यो देवेभ्यो धान्यम् पाचयन्नम् ब्रह्मणवोदनम् समुद्रायापः उक्तानायाङ्गी रथायानः वैश्वानरायरथम् यैश्वानरप्रत्नथानाकमालुपदे पृष्ठम् बन्दवानः सुमन्महे तवो भवनयद्यन्तवेदनम् समानद्मा वर्यादृ राजा त्वावर्णो ने विदक्षिणे वैश्वानराजरथम् तेनामृतमस्यात्रे प्रतिग्रहेत्रे कैयम् ते कस्मादाल कामः कामाय कामा कामो दाता कामः कामकम् समुद्रमाविश कामे नत्वात् प्रतिगृह्णामि कामे सत्ते एषा ते कामदक्षिणा उत्तानस्त्वाङ्गे रथः प्रतिगृह्णातु स्वधर्णम् धर्मम् परिवेदेन इन्द्रस्यात्मानन्दसथाचरन्तम् अन्तः समुद्रे मनसाचरन्तम् क्रणुमान्नबिन्दश होतारमन्ने अन्तःप्रविष्टशास्ता जनाना ये कश्चन् बहुधा विचारः शतकम् शुक्राणि यत्रैकम् भवन्ति सर्वे वेदा सर्वाः आत्मा सर्वाः प्रजा गच्छन्ति देवये समानजेन ब्रह्मेन्दमग्निम् जगतप्रतिष्ठाम् दिव आत्मानकुंसवितारम् बृहस्पतिम् चतुरहोतारम् प्रतिशोधकृतम् वाचावेर्यन्तमसान्वविन्दते अन्तः प्रविष्टम् कर्तारमेतम् क्रष्टारकुम् रोपाणि विकृन्तम् विपश्यम् अमुदस्य प्राणै यैक्यमेतम् चतुरहोतु नामात्मानम् कवय अनुचित्युः अन्तःप्रविष्टम् कर्तारमेतम् देवानां बन्धुनिहितङ्गुहाधो अमृतेन वृत्तै यज्ञमेतम् चतुर्होतनामात्मानम् कवयानुचित्यः शतम् निलः परिवेदविश्वा विश्ववालः विश्वमिदम् वृणादि इन्द्रस्यात्मानि हितः पञ्च होता अमृतम् देवानामायः प्रजानाम् इन्द्रगुम् राजानगुम् सवितारमेतम् वायोत्मानम् कवयानुचिक्यः अस्मै दे कवयनि वानम् विभर्ति अनभिन्नस्तन्नशकानि विचष्टे यस्याण्डकोशकुम् सत्वमाहुप्राणमुण्डम् तेन कृत्वा मृतेन अहमस्मि सुवर्णम् कोशकुम् रजसा परीभृतम् देवानाम् वसुधानिम् विराजम् अमृतस्य पूर्णान्तामुकलाम् विचक्षते पादकम् षड्वालन्यलिला केन तवः पञ्चप्ताः उत वा षड्ढा मनसोदकृप्ताः तघम् षड्भातारपुतकल्पमानम् रथस्य पथे कवयोनिपान्ते अन्धः प्रविष्टम् कर्तारमेतम् अन्तश्चन्द्रमसि मनसाचलन्तम् सहैव सन्तः इन्द्रस्यात्मानश्व सदाचलन्तम् इन्द्रराजा जगतायैशप्तहादा विमुक्तः परेण दन्तम् परियुच्यमानम् अन्तरादीतेन्दते ब्रह्मैतद्ब्रह्मणबुज्यभारन्तकम् शरीरस्य मध्ये आयसिनम् सप्तमेहन्ति बहुलागश्रियम् इन्द्रगोमदीम् अच्युताम् बहुलागश्रियम् सहैवश्रीत्तमः स्वामिन्द्र गोमते अच्युताम् बहुलागश्रियम् मह्यमिन्द्रोऽयच्छत् शतकंशता अस्ति युक्ता हरीणाम् अर्वानायादवसुभे अश्विनिन्द्रः बहुलागश्रियम् अश्विलेन्द्रः समिता मे नियच्छत् कृतन्तेजोमदिन्द्रियम् मय्ययमद्यर्दधातु हरिः प्रतङ्गः पठरेषु पर्णः विभिक्षयो पञ्चारञ्चक्रम् परिवर्तते बृसो हिरण्यज्यस्य मध्ये अजस्रञ्जोलसा दर्पजयति स न किन्तः कामवदम् ददात् सब्दयुञ्जम् जरथमेकचक्रम् एको अश्वपहनामाचक्रमजरमणर्वम् येने महाविश्वा भुवनानि तस्तुः भद्रम् वश्यम् तपसे दुरग्रे अतराक्षत्रम् पदमोजस्य जातम् तदस्मे देवाभिसन्न श्वेतकम् रश्मि भुज्यमानम् अभाम् नेतारम् भुवनस्य गोपा इन्द्रनिजक्यः परमे व्योमन् रोहिणेऽप्यङ्गला एकरूपाः शरन्ध्येऽप्यङ्गला एकरूपाः शतम् शास्त्राणि प्रजाम् पशोन्धनानि अस्माकम् ददातु श्वेतोरश्मिपरि सर्वम् बभूव स्वर्णह्यम् पशो विश्वरूपान् पतङ्गमत्तमसुरस्य मायः कृता पश्यन्ति मनसा मनीषिणः समुद्रे अन्धः कपयो विचक्षते मरेचेन पदमिच्छन्ति वेधसः पतङ्गोवाच मनसा बिभर्ति धर्वोपदग्रे अन्धः कान्द्योतमानागस्पर्यम् मनीषा निपान्ति ये ग्राम्याः पशवो विश्वरूपाः विरोपाः सन्तापकृभैकरूपाः अव्यस्तागुम् अग्रे प्रजापदप्रजयागम् विधानः वेतव्यस्तुके स्तुके एवमस्माधुनीयश्च प्रयज्ञपचन्तिर ये ग्राम्याः पशवो विश्वरूपाः विरोपाः सन्तापगृभैकरूपाः तेषाम् सप्तानामिकलन्तिरस्तु आयस्पोषाय सुप्रजास्त्वाय सुवीर्याय या। जहारण्याः पशवा विश्वरूपाः विरूपाः सन्तोपखैकरूपाः वायुस्प्राज्ञम् अग्रे प्रणोमाक्तुदेवः प्रजापतिप्रजयासंविधानः इदायै सप्तम् शतवच्चराचरम् देवारङ्गविन्दम् गुहाहितम् हारण्याः पशवा विश्वरूपाः त्रिरूपाः सन्तो बहुधैकरूपाः पेषाकम् सप्तानामिरस्तो रायस्तोषाय सुप्रजास्ताय सुबेव्याय सहस्रशीर्षः पुरुषः सहस्राक्षःसहस्रपात् स्वभोनिम् विश्वता कृत्वा अत्यदष्टद्दशाम् पुरुषे वेदकम् सर्वम् यद्भूतम् यच्च भव्यम् गुदामसत्त्वशेषानः निरन्नेन <Sess> एतावानस्य महिमा ततोऽध्यायाश्च पोरुषः पादोस्य विश्वाभूतानि त्रिपादस्यामृदन्धे त्रिपादोर्भवदे पुरुषः पादोसेहाभवात् पुनः ततो विश्वन्यक्रामदे सासनानशने अभि तस्माद्विराडजायत विराजोऽधिपोरुषः जा, स्वजातोऽ्यरिच्छता अष्टाद्वो विमथा पुरः यत्पुरुषेण देवायज्ञमतन्वतः वसन्ता स्यादीताज्यम् इशरविः सप्ता स्यादन्वरिषयः सप्तसमिधाताः देवा यद्यज्ञम् तन्वानाः अपत्यन्पुरुषम् वशम् नैयज्ञम् परिहृप्रोक्षन् पुरुषम् जागमकृतः येन देवायजन्ता साध्याये तस्मात् यज्ञात् सर्वभूतः सम्भृतम् वृदाज्यम् अशोकस्तागश्च क्लेवायव्यान् आरण्यान्ग्राम्याश्च तस्मात् यज्ञात्सर्वभुतः त्रजःसामान्यजज्ञिरे छन्दागंसिजज्ञिरेकस्मात् त्रजस्तस्मादजायत तस्मादस्मा अजायन्त एकैको भयादतः गावोहजज्ञरे तस्मात् तस्माज्जाताजावयः यत्पुरुषम् व्यदथुः कविधाव्यकल्पयन् मुखगिवस्य तौ बाहो कावोरोपादा उच्येते ब्राह्मणोस्य मुखमासेव बाहो राजन्यः कृतः औरोदस्य यद्वैष्यः अभ्यागुंशोद्रोजायत रन्द्रमा मनसो जातः चक्षोः सौर्यजायत मुखाविन्द्रष्टाज्ञश्च प्राणाद्वायोजायत नाभ्यादिक्षम् शेषणाद्भ्यो समवर्तत पद्भ्याम्भव मृद्विदश्राहार तथा लोकाकम् अकम्पयन् वेदाहमेधम् पुरुषम् महान्तम् आदित्यवर्णमहस्तुपारे सर्वाणि रूपाणि विचित्यधीरः नामानि कृत्वा विवदनेरा स्मेर धाता पुरस्ताद्यमुदा जार तिरष्ठतस्रः तमेवम् विद्वानमदेशो नान्यपन्थायनाय विद्यते यज्ञेण यज्ञमयन्तदेवाः तानि धर्माणि प्रथमान्यासन् हनाकम् महिमानः स्पजन्ते यत्र पूर्वे साध्याः सन्ति देवाः अभ्यः सम्बोधः पृथिव्ये सा च विश्वकर्मणः तस्य प्रक्ता विदहद्रुवमेति तद्पुरुषस्य विश्वमाजानमग्रे तेनाहमेतम् पुरुषम् महान्तम् आदित्रवन्नन्तमतः परस्ता तमेवम् रीता नमतेन भवति नान्यत्पन्था विद्ये जनाय प्रजापतिश्चरतिगर्भे अन्तः अजायमानापबुधा विजायते तस्य धीराः परिजानन्ति यानिम् नाम पदमिच्छन्ति मेधदः यो देवेभ्या जपदे यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमोर्षाय ब्राह्मये इदम् ब्राह्मम् जनयन्तः देवाग्रे पुनब्रुवन् यस्तम् ब्राह्मणो विद्यात् तस्य देवासन्वशे श्रीश्च अहोरात्रे पार्श्वे नक्षत्राणि रूपान् अश्विनौ व्यात्तम् इष्टम् मनिषा न अमुम् मनिषाणा सर्वम् मनिषा न भर्ता सन्ध्रियमाणो विभक्ति एको देवो बहुधा निविष्टः यदा भारम् तन्त्रयते स भक्तम् निधाय भारम् पुनरस्तमेति तमेव मृत्युमदन्तमाहुः तम् भर्तारन्तमुगाप्तारमाहुः यमाणाभिपत्ति भी यगेण सत्येन भर्तुम् सद्यो जातमुदजः तेजः जाहा। उतो जलन्तजः त्येगम् उतो बहुनेकमः जहार अतन्त्रो देवः सलमेव प्रार्थः यस्तद्वैरगिला दे बभूव सन्धान् सन्ते ब्रह्मणेजः रमते तस्मिन्मुदजीर्णेषयाने नैनम् जहा चहस्तु पूर्वेषु वामापुवानुसर्वाश्चरन्ति जानन्ति तत्सम् वयसा पुरानाःवाहकम्भर्कामादृश्वाः प्रजानाः अय्यज्ञस्तमुदेवाः पमायन्ति सर्वे त्वमेकोऽधि बहो न प्रविष्टः नमस्तेऽस्तु सुभवो मयेधि नमो वामस्तुम् हवम् मे प्राणापानावधिलगुम् सञ्चरन् मयामि वा ब्रह्मणा तुर्तमेतम् योमान्द्वेषितम् जहितम् युवाना प्राणापानो संविधानो जहितम् अमुष्या तु नामालङ्कसाम् कर्मे देवा ब्रह्मणा संविधानो वधाय दत्तन्तमहम्हनामि असज्जानसदा बभूव हेयम् जानसौ गोप अस्य यदा भारम् तन्त्रयते असभक्तम् परास्य भारम् पुनरस्तमेते तद्वै त्वम् प्राणो अभवः महान् भोगप्रजापतेः भुजः करिष्यमाणः देवान् प्राणयो न वा हरिगुम्हरम् कमनीयम् च देवाः विश्वस्य एताम् ऋणभम्मतीनाम् ब्रह्मसरोपमनुमेतमागात् हरिणम् मा विभधेर्विक्रमस्व प्रजाम् मामे देधायुग्रह विचक्षसन्त्वा विधाभिधे वा सद्यश्च कमानाय प्रवेपानाय मृत्यवे प्रास्मा शृण्वन् कामेनाजनयन् पुनः कामेण मे कामागाद तदया धजयन् मृत्योः यदमेषा पदप्रियम् तदैतोपमामभिः परम् ैतराजयनात् चक्षुष्पते ब्रवीणे मानप्रजागमृष मोदवीरान् बभोर्यै मनसा वन्दमानः नाथमानामृतभञ्जर्जनेनाम् यः प्रजानामे करान्मानुषीणाम् मृत्यङ्गजय प्रथमजामृतस्य करणिर्विश्वदर्शराज्यदर्शौर्यमाभाशिरोचनम् वयाभिधेयो भ्राजस्पतयशेयोसूर्यायत्वा भ्राजस्पते आद्यायस्वचिन्दमतोमविश्वाभिरोतिभिः भवान् स प्रथस्तमः ये यष्टे प्रथस्त ये पूर्वतरामश्यन्मिच्छन् दे मृषसम् मर्प्यातः अस्माभिरोन्न प्रतिरक्ष्या भूतो ते यन् देयापरिषु ज्योतिष्पदेन् द्वासारयामि ज्योतिष्कृतम् द्वासादयामि च्यो धर्मिलम् द्वाचारयामि भास्पदेन् द्वासारयामि स्वरन्देन् द्वादादयामि मल्मनाभवन्देन् द्वासादयामि दीप्यमाणान् त्वा चारयामि रोचमानान् त्वा चालयामिजस्रान् त्वाचारयामि प्रत्योदिषम् त्वा चालयामि प्रयासाय स्वाहा यादाय स्वाहा नियासाय स्वाहा नियासाय स्वाहो स्वाहा वयासाय स्वाहा स्वाहा शोधाय स्वाहा यक्ना, चिंतक सन्ताेण भव्यक्नाद्रम्त नुपतिग्रस्थोल हृदय हृदय रुद्रम लोहित महादेव मंत्रेनिष्टुभृग्छयोरावे महे गाक्यज्ञा गाग्यपय देशभ्योजिफेज धर्णास्तद्विपदे सञ्चतस्पदे ओम् शान्तिश्रान्तिः ओम्